श्रीहरये नमः अद तृतीयोऽध्यायः श्रीशुक उपाचा दृष्ट्वात्मनिजये व्यग्रान् नृपान् हसति भूरियम् अहोमा विजिगीषन्ति मृत्यो क्रीडनका नृपाः कामयेश नरेन्द्राणां मोघश्यात् विदुषामपि येन पेनोपमे पिण्डे येति विश्रम्भिता नृपाः पूर्वं निर्जित्य षड्वर्गं जेष्यामो ततः स शिव पौराप्त करीन्द्राणस्य एवं क्रमेण जेष्याम पृथ्वीं सागरमेकलाम् इत्याशा भद्रहृतया नः पश्यन्त्यन्ति केन्तकम् समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा आत्मजये फलं यां यां विसृज्यैव मनवस्तस्तुताश्च कुरु द्वः गतायाता गतं युद्धे तां मां जेष्यन्ति अबुद्धयः मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहः जायते ह्य सतां राज्ये ममता ममैवेयं मही कृत्स्नान ते मूढेतिवादिनः स्पर्धमानामितो घ्नन्ति म्रियन्ते मत्कृते नृपाः पृथुः पुरुरभाघातिर्नहुशो मन्दाता सगरो राम कट्वाघो दुन्तुहारगुहो तृणभिन्दुर्ययातिश्च शर्यातिश्शन्तनुर्गयः भगीरथः कुवलया स्वककुत्स्थोन्नैषधो मृगः रावणो लोकरावणः नमुचि शम्भरो भौमो हिरण्याक्षोततारकः अन्ये भगवो दैत्या राजानो ये सर्वे सर्ववितशूरो सर्वे सर्वजितो जिताः मम तामय्य वर्तन्तक्रत्वोच्चैर्मर्त्यधर्मिणः कतावशेषा कालेन ह्यकृतार्था कृता विभो कथा इमास्ते कथितामहीयसां विताय नित्यं शृणुया तीक्ष्णं कृष्णे मलां भक्तिमभीप्समानः राजोवाचा केनोपायेन भगवन्कलेर्दोषान् कलौ जनाः विधमिष्यन्त्युपचितां स्तन्मे ब्रूहि यता युगानि युगधर्मांश्च मानं प्रलयकल्पयोः कालस्येश्वरूपस्य गतिं विष्णोर्महात्मनः श्रीसुख उवाच कृते प्रवर्ते धर्मश्चतुष्पादजने धृतः सत्यं धयो तपोधानमिति बाधो विभोर्नृपा सन्तुष्टा करुणा मैत्रा शान्ताधान्तास्तिक्षवः आत्मा त्रेतायां धर्मपाधानां तुर्यां सोहीयते सनैः अधर्मपादैरनृतहिंसा सन्तोषविग्रहैः तथा क्रिया तपोनिष्ठा नातिहिंस्रानलं पठाः त्रैवर्गिकास्त्रयी वृद्धा तपःसत्यदया धानेष्वर्दं ह्रसति द्वापरे हिंसातुष्ट्यनृतद्वेषे धर्मस्याधर्मलक्षणैः यशस्विनो महासाला स्वाध्यायाद्यने रताः आढ्याकुटुम्बिनो हृष्टा वर्णाक्षत्रद्विजोत्तराः कलौ तु धर्म हेतूनां तु तुर्यां सो धर्म हेतुभिहे ये धमानैः क्षीयमाणो ह्यन्ते सोऽपि विनक्ष्यति तस्मिन् लुब्धा दुराचारा निर्दया शुष्कवैरिणः दुर्भगा भूरिदर्शाश्च शोद्रदाशोत्तरा प्रजाः सत्वं रजस्तमिति दृश्यन्ते पुरुषे गुणाः कालसञ्चोदि स्ते वै परिवर्तन्त आत्मनि प्रभवन्ति यथा सत्त्वे मनोबुद्ध्रीन्द्रियाणि च तदा विद्याज्ञाने तपसि यदा धर्मार्थकामेषु वृत्तिर्भवति देहिनां तथा त्रेधा रजो वृत्तिर् इति जानिहि बुद्धिमन् यथा लोभस्त्वसन्तोषो मानो दम्पोतमत्सरः कर्मणां चापि काम्यानां द्वापरं तद्रजस्तमः यथा मायानृतं तन्द्रा शोको मोहो भयं दैन्यं सकलिस्तामसस्मृतः यस्मान् शूद्रदृशो मर्त्या महासनाः, कामिनो वित्तहीनाश्च स्वैरण्यश्च स्त्रियोसती हे दस्युत्कृष्टा जनपथा भेदाः पाकण्डदूषिताः राजानस्य प्रजाभषाः सिष्णोधरपरा द्विजाः अव्रता बिषवश्च कुटुम्बिनः तपस्विनो ग्रामवासा न्यासिनोद्यर्थलोलुपाः ह्रस्वगायामहाहारा पूर्यपत्या गतह्रियः शश्वत्कटुकभाषिण्यः सौर्यमायोरु साहसाः पणयिष्यन्ति वैशूद्रा अनाभत्यभिमंश्यन्ते वार्तां साधु जुगुप्सितां पतिं त्यक्ष निर्द्रव्यं भृत्या अप्यखिलोत्तमं भृत्यं विपन्नं पतयच्च गाश्चापयश्विनीहे पितृभरातृसुहृद् ज्ञातिन् हित्वा सौरथसौहृदाः नान्दृश्यालसम्भाता दीना सत्रैणा कलो नराः शूद्रा प्रदिगृहीक्ष्यन्ति तपो वेशोत्पजीविनः धर्मं वश्यन्त्यधर्मज्ञा अधिरुह्य उत्तमासनं नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्षिताः निरन्ने भूतले राजन् अनावृष्टिभयात्तुराः सोन्नपानस्तयनव्यवायस्नानभूषणैः हीनाः पिशासन्दर्शा भविष्यन्ति सर्वार्थकुशलान् शूद्रासिष्णोधरम्भराः कलौ न राजम् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्गजम् प्रायेण मर्त्या भगवन्तमच्युतं यश्यन्ति पाकण्ठविभिन्नचेतसः यन्नामधेयं म्रियमाण आतुरः विवसो गृह्णन् पुमान् विमुक्तकर्मार्घलवुत्तमां गतिं प्राप्नोति यक्षन्ति न तं कलिकृतान् दोषान् द्रव्यदेशात्मशम्भवान् सर्वान् हरदि चित्तस्थो भगवान् पुरुषोत्तमः श्रुतः सङ्कीर्तितो नृणां तु नोति भगवान् हृत्स्थो जन्मायुताशुपं यथा हेम्नि स्थितो वह्र्दुर्वर्णं हन्दिधातुजम् एवम् आत्मगतो वैष्णो योगिनामशुभाशयं विद्या तपः नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्ते भगवत्यनन्ते तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवं म्रियमाणो ह्यवहितस्ततो यासि परां गतिं म्रियमाणै अभिध्येयो भगवान् परमेश्वरः आत्मभावं न यत्यङ्ग सर्वात्मा सर्वसंशयः कलेर्दोषनिधे राजन् अस्तिह्ये को महान् गुणः कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत् कृते यद्ध्यायतो विष्णुं त्रेतायां मकैहे द्वापरे परिचर्यायां कलौ तत् हरिकीर्तनाद् इति श्रीमद्भगवते महापुराणे द्वादशस्कन्ते युगानुवर्णं तृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय